हरि ओम् श्री सीतारामचन्द्राभ्यां नमः अथ श्रीमद्वाल्मीकि रामायणे अयोध्याकाण्डे एकादशे स्वर्ग कैकै राजानम् प्रतिज्ञया बद्ध्वा तेन प्राक् प्रदत्तो वरौ स्मारयित्वा तयो एकेन भर्ताभिषेकश्च अपरेण च श्रीरामकर्तृक चतुर्दश वर्षावधिक वनवासस्य च याचनम् तं मन्मथ शरीर्विद्धम् कामवेगवशानुगम् उवाच पृथिवीपालम् कैकेयी दारुणम् वचः नास्मि विप्रतादेव येन चिन्नावमानित अभिप्राय तुमेकश्चित् तमिच्छामि त्वया कृतं प्रतिज्ञां प्रति जानयित्वा यदि तं कर्तुमिच्छसि अथ ते व्याहरिष्या यहाँ प्राथीत मच महाराज कैकेम कामी हतेन संगृह्य मूर्धजु भुविता अवलिप्ते नासी तीय सरम मनुजो मनुजो व्याघ्रह रामो न तेना ेन मुख्येन राघवेण महात्मना शपेते जीवनार्हेण गृहीयन्मनसे स्थितम् यं मुहूर्तम् अपश्यन्स्तु न जीवेतन्नहं ध्रुवम् तेन रामेण कैकेयी शपेते वचनक्रियाम् आत्मना चात्मजै चान्यै प्रणेयम् मनुजशभम् तेन रामेण कैकेयी शपेते वचनक्रियाम् भद्रे हृदयमप्येतत् अनुमृश्योद्धरस्व मे एतस्मीक्ष कैकेयी ग्रूही यत् साधु मन्यते पश्यन्ति न विशङ्कितुमर्हसि करिष्यामि तव प्रीतिम् सुकृते नापि शपे सा मना देवी तमिप्रागत निर्माध्यस्था थाच्च, साक्षाच बभाषे दुर्वचम वच तक संवृष्टा तमिप्रात्म व्याजह मोर अभ्यागतवांतक यहां क्रमेण शपसे परम दासी च तत् शृण्वन्तु त्रयोस्त्रिंशे देवासेन्द्रः पुरोगमः चन्द्रादित्यो नभश्चैव गृह रात्रे हनिच जगच्च पृथिवी चेयम् सैगन्धर्वः भूतानि गृहेषु गृह यानि चान्यानि भूतानि जानीयुर्भाषितं तवे सत्यसन्धो महातेजाय धर्मज्ञ सत्यवाक्षुचिः वरम मा ददात्यश सर्वे शृण्वन्तु दैवतः इति देवी महे श्वासम् परिगृह्याभिषस्य च तथ परमुवाचेदम् वरदम् काममोहितम् स्मर राजन् पुरावृत्तम् तस्मिन् देवासुरेरणे तत्र तां चावियच्छत्रौ तव जीवितमन्तराय तत्र चापि मया देव यत् तं तमभिलक्षितः जागृत्यायतमानाय मे प्रददो वरौ तौ दत्तो च वरौ देव निक्षेपौ मृगयाम्यहम् तद पृथ्वी फाल सकाशे रघुनन्दन तत्प्रति श्रुत्य धर्मेण न चेत् दास्यामि मे वरम् अद्यैव प्रहास्यामि जीवितम् तद्विमानित वाङ्मात्रेण तदा राजा कैकेय्यासवशे कुतः प्रचस्कन्ध विनाशाय पाशम् मृग इवत्मनः ततः परम् काममोहितम् वरोदयौ त्वया तदा दत्तो महीपते तौ तावम्मद्यैव वक्ष्यामि शृणुमेव च अभिषेकसमारम्भो राघवस्य उपकल्पितः अनेनषेकेण भरतो मेऽभिषिच्यत यो द्वितीयो वरो देव दत्त प्रीतेन मे त्वया तदा देवासुरे युद्धे तस्य कालोऽयमागतः नव पञ्च वर्षाणि दण्डकारण्यमाचरितः चिराजेन धरो धीरो रामो भवति तापसः भरतो भजताम् अद्य यौवराजम् मकण्टकम् एष मे परतः एव ब्रह्मणे अद्य चैव हि पश्येयम् प्रयान्तं राघवम् वने स्वराजराजो भव सत्यसङ्गरे कुलं च शीलं च जन्म रक्षे स्वरत्र वासे हि वदन्त्युनुत्तमम् तपोदाना सत्यवचो हि सं नृणाम् इत्याख्ये श्रीमद् रामायणे वर्मिकीय अधिकारी अयोध्याकाण्डे एकादश सर्गः